अथ त्रिसप्तम् दशकम् निशमय्यत वाथ यान वार्ताम् भृशमार्ताः पशुपाल बालिकास्ताः किमिदम् कि समवेताः परिदेवितान्यकुर्वन् करुणानिधिरेश कथमस्मान् विसृजेदनन्यनाथाः बतनः किमुदैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च परितापभरम् नितम् विनीनाम् शमयिष्यन् व्यमुचः सखायमेकम् अचिराबुपयामि सन्निधिम् वो भविता साधु मयैव सङ्गमः श्रीः अमृताबुनिध निम्जिष्ये द्रुत मतधूर काी स विषादरम साच्चरदूर वनता मृदु तदिशि पापय नांग सबलो क्रूर रथेन निर्गत भू अन साहुल नल्लवा मनसा चागत वल्लभा वनमार्तमृगम् विषण्म वृक्षम् समतीतो यमुना तटीमयासीः नियमाय निमज्ज वारिणि त्वामभिवीक्ष्याथ रथेऽपि गान्दिनेयः विवशो जनि विभोस्ते ननुचित्रं चित्रम् त्ववलोकनम् समन्तात् पुनरेष निमज्ज पुरुषं पुरुषम् त्वाम् परमम् भुजङ्गभोगे अधिकम्बु गदाम्बुजैः स्फुरन्तम् सुरसिद्धौ गपरीतमालुलोके स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन् प्रकारभेदैः अविलोक्य पुनश्च हर्ष सिन्धोरनुवृत्त्या पुलकावृतो ययौ त्वाम् किमु शीतलि मा महाञ्जले यत्पुळकोऽसाविति अतिहर्षनिरुत्तरेण सार्धम् रथवासीपवने